श्रीहरये नमः अथ चतुःपञ्चाशत्तमोऽध्यायः श्रीशुक उवाच इति सर्वे सुसम् वाहानारुग्यधंसिताः स्वैश्वैर्भलै परिक्रान्ता अन्वीयोर्धृतकार्मुकाः तानापत आलोक्य यादवानीकयूतपाः तत्तुस्तत्सम्मुख राजन् विष्पूर्जस्वधनुंषिते अश्वस्पृष्टे गजस्कन्धे रथोपस्ते च को विधाः मुमुचुःसर वर्षाणि मेघा अदृष्व पोयथा पत्युर्बलं सरासारैश्चन्नम् वीक्षसु मध्यमा सौव्रीडम् ऐक्षद्धद्वक्त्रं भयविचनं प्रहस्य भगवानाहमास्म भैर्वामलोचने विनङ्क्षयद्यधुनैवैतत् तावकैशात्रबम्बलं तेषां तद्विक्रमं वीरागतः सङ्कर्षणादयः अमृष्यमाणा नाराचैर्जज्ञोर्ह्य गजान् ङ्गजिनाम्बुवि सकुण्डलकिरीटानि सोष्णीशाणि च कोटिसहा हस्ता साशिगदेष्व सा करभाऊरभोङ्घ्रयः अश्वास्वतरनागोष्ट्रकरमर्त्यशिरांसि हन्यमानबलानीका वृष्णिभिर्जय राजानो विमुखा जग्मोर्झरासन्दपुरःसराः शिशुपालं समभ्येत्य हृतधारमि वातुरं नष्टद्विषं गतोत्साहं श्रूयद्वदनमब्रुवन् भो भो पुरुषसार्धूलधौर्मस्यङ्गितं त्यज न प्रियो प्रिय राजन्निष्ठादेहिषु दृश्यते यथा दारुमयी योक्षि नृत्यते गुहकेचया एवमीश्वरतन्त्रोऽयम् ईहते सुखदुःखयोः सौरे सप्तदसाहं वै संयुगानि पराजितः त्रयोविंशतिभिस्सैन्यैर्जिक्य एक रं तथाप्यकं न शोचामि न प्रहृश्यामि कर्हि कालेन दैवयुक्तेन जानन् विद्रावितं जगते अधुनापि वयं सर्वे वीरयूतपयूतपाः पराजिता पल्गुतन्त्रा यदुभिकृष्णपालितैः रिपवोज्जिघ्युरतुना काल आत्मानुसारिणे तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः एवं प्रभोतितो मेत्रे चैद्योकात्सानुगः पुरं हतशेषा पुनस्तेऽपि ययुस्वं स्वं पुरं नृपाः रुक्मितो राक्षसोद्वाहं कृष्णद्विडसहन् रुक्म्यमर्षिशुश्रं रब्धशृण्वतां सर्वभूभुजां प्रदिजज्ञे महाभागोर्धंसितः सरासनः अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीमिव इत्युक्तारथमारुह्य सारथिं प्राक् सत्वरः अद्याहं निशितैर्बाणैर्गोपालस्य सुधुर्मतेः नेष्ये वीर्यमधं येन स्वसा मे धनुर्विकृष्य सुदृढं जग्ने कृष्णं त्रिभिस्सरैः तिष्ट यधूनां कुलपांसन कुत्र यासि स्वसारं मे मुषित्वा ध्वाङ्हविः हरिष्येद्यमतं मन्धमायिनकूटयोधिनः स्मयन् कृष्णो धनुश्चित्वा षद्भिर्विव्याधरुक्मिणम् अष्टभिश्चतुरो भागान्द्वाभ्यां सूतं ध्वजं त्रिभिः स कृष्णं कृष्णं विव्याधपञ्चभिः तैस्ताढितः सरोघैस्तो चिच्छेदधनु अच्युतः पुनरन्यत् उपाधत्त तदभि अचिनत्तव्ययः परिगम् पट्टिसं शूलं चर्मासि तत्सर्वं सोचिनत् ततो रथात् अवप्लुत्य खड्गपाणिर्जिघांसयां कृष्णमभ्यद्रवत्क्रद्धपथङ्ग इव पावकं तस्य चापततः खड्गं तिलसश्चर्म चेशुभिः चित्व असि माधते धिग्मं रुक्मिणं हन्तुमुद्यतः दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणीभयविह्वलं पतित्वा पादयोर्भर्दुर् उवाच करुणं सत्य योगेश्वर अप्रमेयात्मन् देवदेव जगत्पदे हन्तुं नार्गसि कल्याण भ्रातरं मे महाबुज श्रीसुकौ उवाचां तया परित्रासविकम्पिधाङ्गया सुशावश्यन्मुखरुद्धकण्ठया कातर्यविश्रंसित हेममालया गृहीतपातकृणोन्यवर्तता शैलेन भत्वा तमसाधुकारिणं समश्रु केशं प्रवपन् तावन्ममर्तुपरः सैन्यम् अद्भुतं यदुब्रवीरनळिनीं यथा गज कृष्णान्तिकम् अपव्रज ददृशुस्तत्र रुक्मिणं तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः विमुच्यभत्तं करुणो भगवान् कृष्णम् अब्रवीत् असाद्वितं त्वया कृष्ण कृतम् अस्मजुगुप्सितम् वपनं समसृकेशानां वैरूप्यं सुकृदो वधः मयिवास्मान् साध्य सुयेता भ्रातुर्वैरूप्यचिन्तया सुखदुःखतो न चान्योऽस्ते यतस्वकृतभुग्भुमान् भन्तुर्वतार्हदोषोऽपे न भन्धोर्वधमर्हते त्याजस्वेव हत किं हन्यते पुनः क्षत्रियाणामयं धर्म प्रजापतिविनिर्मितः भ्रातापि भ्रातरं हन्याद् येन घोरतरस्ततः राज्यस्य भूमेर्वित्तस्य स्त्रियोमानस्य तेजसः मानिनोन्यस्य वाहेथो श्रीमधान्धाशिपङ्क्तिः तवेयं विषमा बुद्धे सर्वभूतेषु दुर्हृदां यन्मन्यसे सदा भद्रं सुहृदां भद्रमज्ञवद् आत्ममोहो नृनामेष कल्प्यते देवमायया सुहृद् दुर्हृत् इति देहात्ममानिनाम् एक एव परो ह्यात्मा सर्वेषामपि देहिनां नानेव गृह्यते मूढैर्यथा ज्योतिर्यथानभः देह आत्यन्तवानेश द्रव्यप्राणगुणात्मकः आत्मन्यविद्ययाक्रब्ध संसार यदि देहिनं नात्मनोऽन्येन संयोगो योगश्च सतः सति हे तथ्ये धृत्वा तत्प्रसिद्धेर्दृक्रूपाभ्यां यथा रवेः जन्मादयस्तु देहस्य विक्रियानात्मनः क्वचित् कलानामिव नैवेन्धो मृतिर्ह्यस्य यथा स यान् आत्मानं विषयान्फलमेव च अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यभुतो भवं तस्मात् अज्ञानजं सोकम् आत्मसूक्षविमोहनं तत्त्वज्ञानेन निर्हृत्य स्वस्था भवतु चिस्मिते श्रीसुक एवं भगवता तन्वी रामेण प्रतिभोधिता वैमनस्यं मनस्यं परित्यज्य मनोबुद्ध्या समादते प्राणावशेषवोत्सृष्टो द्विड्भिर्हत बलप्रभः स्मरन् विरूपकरणं वितथात्ममनोरथः चक्रे भोजकटं नाम निवासाय महत्पुरम् अहत्वा दुर्मतिं कृष्णम् अभ्रत्युह्य यवीयसीं कुण्डिनं न प्रवेक्ष्य मीत्युक्त्वा तत्रावसत्रुषां भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् पुरमानीयवितिवधो पये मे कुरु द्वहा तथामहोत्स्वो नृणां यदुपुर्यां गृहे ग्रिखे गृहे अभूतनन्यभावानां कृष्णे यदुपतौ नृप नरा नार्यश्च मुदिता प्रभृष्टमणिकुण्डलाः पारिबर्हम् उभा जह्रोर्भरयोश्चित्रवाससोः सा विचित्रमाल्यां पररत्नतोरणैः बभौ प्रधित्वा सिद्धमार्गां मदश्युद्भिराह्योतप्रेष्ठुजां गजैस्त्वां रुष्ट्रं बाभूगोपशोपितां कुरु सृञ्जय कैकेय विदर्पय दुकुन्तयः मितोमुदिरे तस्मिन् सम्भ्रमात् परिधावतां रुक्मिण्याकरणं श्रुत्वा गीयमानं ततस्ततः राजो नो राजकन्याश्च बभूवोर्भृसविस्मिताः द्वारकायामभूत्राजन् महामोतः पुरौकशां रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते रुक्मिण्युद्वाघे चतुःपञ्चाशद्धमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दा सद्गुरूनाथमहराजकी जय